छान्दोग्योपनिषत् अध्यायम् एय्ट् खण्डं वन् ओधयदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तराकाशस्तस्मिन्न्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति कञ्चेद्ब्रू युर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तराकाश किं तदत्र विद्यते यदन्वेष्टव्ययद्वावविज्ञासितव्यमिति स ब्रूयाद्यावान्वा अयमाकाशस्तावा ने श्रोन्दर्हृदय उभे अस्मिन् द्यावापृथिवी अन्तरे वसमाहिदे उभा वग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिंसमाहितमिति तञ्चेद्भ्रूयुरस्मिगुंश्चेदिदं ब्रह्मपुरे सर्वगं समाहितगुं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरावाप्नोदिप्रध्वगुं सदे वा किं ततोदिशिष्यत इति सभ्रूयान्नास्य जरयैद्रीर्यदिनवधेनास्य हन्यद ये दत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्मा पहद पाप्मा विजरो विमृत्युर्विशोको विशोको वि पासः सत्यकामः सत्यसङ्कल्पो यथा ह्ये वेहप्रजा अन्वाविशन्ति यथानुशासनैयैयमन्दमभिकामा भवन्ति यञ्जनपदैयं क्षेत्रभागन्तमे वोपजीवन्ति तद्यदेहकर्मजिदो लोकहक्षीयद एवमेवामुत्रपुण्यजिदो लोकहक्षीयदे तद्य इहात्मानमननुविद्य व्रजन्त्ये तागुंश्च सत्यान् कामागुं स्तेषागुं सर्वेषु लोकेषु कामचारो भवति अध्यायम् एय् खण्डं टु स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरसमुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातर तेन भ्रातृलोकेन सम्पन्नो महीयते अथ यदि स्वहृलोककामो भवति सङ्कल्पादेवास्य स्वसारः तेन स्वसृलोकेन सम्पन्नो महीयते अथ यदि सखि लोककामो का देवास्य सङ्कल्पादेवास्य सखाय समुत्तिष्ठन्ति तेन सखि लोकेन सम्पन्नो महीयते अथ यदि गल्यलोकम भविक गल्ये समुत्तिष्ट गंधमलोक संपन्न महीयते अथ कामो भवदि सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठस्ते नापानलोकेन ना सम्पन्नो महीयते अध यदिगीधवादित्रलोककामो भवति सङ्कल्पादेवास्य गीदवादित्रे समुत्तिष्ठत तेन गीतवादित्रलोकेन सम्पन्नो महीयते अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो यं यमन्दमभिकामो भवति यङ्गामङ्गामयदे सोऽस्य सङ्कल्पादेव समुत्तिष्ठदितेन सम्पन्नो महीयते अध्यायम् एय् खण्डं त्रि त इमे सध्या कामा अनृतापिधानास्तेषा गं सत्यानागुं सदामनृतमपि धान्यो दर्शनाय लभते अधये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैदे सध्या कामा अनृतापि धानाः तद्यथाभिहिरण्यनिधिन्निहिदमत् क्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेव मे वेमा सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकन्न विन्दन्त्यनृते न स वा एष आत्मा हृदि तस्यै ददेव निरुक्तगुं हृद्ययमिति तस्माद्धृदयम् अहरहर्वा एवं विस्वर्गल्लोगमेति अध य एष सम्प्रसादोऽस्माच्छरीरात् समुद्धाय परञ्ज्योतिरूपसम्पद्य स्वे स्वेननिष्पद्यद एष आत्मेति होवाचैदमृदमभयमेतद् ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति तानि ह वा एदानि त्रीण्यक्षराणि सदीयमिति तद्यच्छदमृतमधयत्ति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवं विस्वर्गल्लोकमेति अध्यायम् एय् खण्डं फूर् अध य आत्मा सेदुर्विधृधिरेषाल्लोकानामसम्भेदाय नैदगुं सेदुमहोरात्रेतरदो न जरा न मृत्युर्न शोको न सुकृतन्न दुष्कृतगुं सर्वे पाप्मानोदो निवर्तन्ते पहद पाप्माह्ये शब्रह्मलोकः तस्माद्वा येदगुं सेदुं तीर्त्वान्धस्सन्ननन्धो भवति विद्धस्सन्नविद्धो भवत्युपतापि सन्ननुपतापी भवति तस्माद्वा येदगुं सेदुं तीर्त्वापि न क्तमःवाभिनिष्पद्यते सहृद्विभादोह्ये वैषब्रह्मलोकः तद्यये वैदं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषा मे वैषब्रह्म लोकस्तेषागुं सर्वेषु लोकेषु कामचारो भवति अध्यायम् एय् खण्डं फैव् अथ यद्यज्ञ इत्याचक्षदे ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवयोज्ञादा तं विन्ददे अध यदिष्टमित्या चक्षदे ब्रह्मचर्य मे वद्ब्रह्मचर्ये नह्येवेष्ट्वात्मानमनुविन्ददे अध यत्सत्रायणमित्याचक्षदे ब्रह्मचर्य मे वद्ब्रह्मचर्ये नह्येव सद आत्मानस्त्राण्णं विन्दते ध यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येणह्येवात्मानमनुविद्यमनुते अध यदनाशकायनमिथ्याचक्षते ब्रह्मचर्यमेव तदेश ह्यात्माननश्यति यं ब्रह्मचर्येणानुविन्ततेथ यदरण्यायनमित्या चक्षु ब्रह्मचर्यमेव तत् तदरश्च ह ब्रह्मलोके तृदीयस्यामिदो दिवि तदैरमदीयगुं सरस्तदश्व सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभु विमितगुंहिरन्मयम् तद्यये वैदवरञ्चन्यञ्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषा गुं सर्वेषु लोकेषु कामचारो भवति अध्यायम् एय् खण्डं सिक्स् अधयायेदाहृदयस्य नाड्यस्ताः पिङ्गलस्या निम्रस्तिष्ठन्ति शुक्लस्य नीलस्य पीदस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीद एष लोहितः तद्यथा महापथ आत उभौ ग्रामौ गच्छतीमं च मुञ्चैव मे वैदा आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं च मुञ्चामुष्मादादित्यात् प्रदायन्तेता आसु नाडीषु सृप्ता प्रदायन्दे ते मुस्मिन्नादित्ये सृप्ताः तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नन्नविजानात्यासु तदा नाडीषु सृप्तो भवति तन्न अध यत्रैतदबलिमानन्नितो भवति तमभिद आसीना आहुर्जानासि माञ्जानासि मामिति स यावदस्माच्छरीरादनुक्रान्तो भवति तावज्जानाति अध त्यथयितैरेव रश्मिभिरूर्ध्वमाक्रमदे स ओमि दिवाद्वामीयते स यावत्क्षिप्येन्मनस्तावधादित्यङ्गच्छति ये तद्वै खलु लोकद्वारं प्रपदनं विरोधो विदुषाम् तदेश श्लोकः शतञ्चैका जहृदयस्य नाढ्यस्थासां विश्वङ्गन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति अध्यायम् एय्ट् खण्डं सेवेन् य आत्मापहदपाप्मा विजरो विमृत्योर्विशोको विचिखत्सोऽपि पाशः सत्यकामः सत्य सङ्कल्पसोऽन्वेष्टव्यस्य विजिज्ञासि तव्यस्य सर्वागंश्च लोकानाप्नोति सर्वागुंश्च मान्यस्तमात्मानमनुविद्य विजानातिदिह प्रजापदिरुवाच तद्धो भये देवासुर अनुबुबुधि ले देहोचुर्हन्ततमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वागृंश्च सर्वागंश्च कामानिति इन्द्रो हैव देवानामभिप्रव्राज विरोचनोऽसुराणान्तौ आसं विधानावेव समिप्राणि प्रजापदि सकाशमा जग्मधुः तौ हद्वा त्रिगुंशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौः प्रजापदिरुवाच वास्तमिति। तौ हो आत्मा आत्मापहदपात्मा विजरो विशोको। विचिखत्सोऽपि पाशः सत्यकामः सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्य विजिज्ञासितव्यस्य सर्वागुंश्च लोकानाप्नोति सर्वागुंश्च वचो वेदयन्ते तमिच्छन्दाववास्तमिति तौहप्रजापदिरुवाचय एषोऽक्षिणि पुरुषो दृश्यत एष आत्मे दिहो वाचैतदमृदमभयमेतद्ब्रह्मेत्यथयोऽयं भगवोत्सु परिख्यायदे यश्चायमादर्शे कदम इत्येश एष इत्येषु सर्वेष्वन्देषु परिख्यायत इति होवाच अध्यायम् एय्त् खण्डम् एय्त् उदसराव आत्मानमवेक्ष्य यदात्मनो न विजानीधस्तन्मे प्रभ्रूबमिति तौहो तौह दशरावेक्षक्षाचक्रादे तौह प्रजापतिवाच इति पश्यथ हो चुस्समे दवा भगव आत्मा पश्या आलोम भ्यनखेभ्य प्रतिपमी तौह प्रजापुवाच साध्वृत सुवसनौ परषकृत भूत्व दशरा वेवेक्षेधा तौह साध्वलृद सुवसनौ परष्कृतौ भूत्वोदशरा वेवेक्षाचक्रादे तौह प्रजापतिवाच किम पश्यथ तौः चतुर्यधैवेदमावां भगवसाध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एव मे वेम्वौ भगवत् सुवसनौ परिष्कृदा वित्येष आत्मे दिहोवाचैदमृदमभयमे दद्ब्रह्मेधि तौः शान्तहृदयौ प्र वव्रजतुः तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्यव्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरावादे परा भविष्यन्तीति सः विरोचनो एव विरोचनोऽसुराञ्जगाम एभ्यो मुपनिषदं प्रोवा चात्मै वेह महय्य आत्मा परिचर्य आत्मान मे वेह महयन्नात्मानं परिचरन्नुभौ लोका वगाप्नोदीह्मञ्चामुञ्चेति तस्मादप्यदेहाददानमश्रद्धधानमयजमानमाहुरासुरो वदेत्य सुराणागुंह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेधि सगुंस्कुर्वन्त्ये तेन ह्यमुल्लोकं जेष्यन्तो मन्यन्ते अध्यायम् एत् खण्डं नैन् अधहेन्द्रो प्राप्यैव देवा ने दद्भयं ददर्श यथैव खल्वयमस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति श्रमे श्रमः परिवृक्णे परिवृक्णोस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति समित्पाणिः पुनरेयायतगुंहप्रजापतिरुवाच मखवन्यच्छान्दहृदयः प्राव्राजी सार्थं विरोचनेन किमिच्छन् पुनरागम इति सहो वाच यथैव खल्वयं भगवोऽस्मिन् शरीरे सुवसनः परिष्कृते परिष्कृतः एव वा मेवायमस्मिन्नन्धेऽन्धो भवति श्रमे श्रामः परिवृग्णे परिवृग्णोस्यैव शरीरस्य नाश्यमन्वेष नश्यदिनाकमत्र भोग्यं पश्यामीति एवमेवैषमखवन्निधिोवाच इदन्त्वेव देहो यो नु व्याख्यास्यामि वसा पराणि द्वित्रिगुंशदं वर्षाणीति सखा पराणि द्वात्रिगुं शदं होवाच अध्यायम् एय्त् खण्डं टेन् ययेष स्वप्ने महीयमानश्चरत्येष आत्मे दिहोवाचैदमृदमभयमे दद्भ्रङ्मेति सहशान्तहृदयः प्रवव्राजसहाप्राप्यैव देवा नेदद्भयं ददर्श तद्यद्यपि तगुंशरीरमन्धं भवत्यनन्दः स भवति यदि श्रममस्रामो नैवै शोस्य दोषेण दुष्यति नवधेनास्य हन्यदे नास्य श्रामेणश्रामो ग्रन्थित्वे वैनं विच्छादयन्दि वा प्रियवेतेव भवत्यपि रोदिदीवनाहमत्र भोग्यं पश्यामीति समित्पाणिः पुनरेयायतगुंहप्रजापतिरुवाचमखवन्यच्छान्दहृदयप्राव्राजी किमिच्छन् पुनरागम इति सहोवाच तद्यपीदं भगवत्यनन्धः स भवति यदि श्रममस्रामो नैव वैशोऽस्य दोषेण दुष्यति नवधेनास्य हन्यदेनास्य श्राम्येणस्रामोघ्नन्दित्वे वैनं विच्छादयन्ति वा प्रियवेत्तेव भवत्यपिरोधिति वनाहमत्र भोग्यं पश्यामीत्येव मे वैषमखवन्निधि होवाचैदन्त्वेव ते भूयोऽनुव्याख्यास्यामिवसापराणि द्वात्रिगुंशतं वर्षाणीति सखापराणिद्वातृगुंशदं वर्षाण्युवाच तस्मै होवाच अध्यायम् एय्त् खण्डं लेवेन् तद्यत्रैतत्सुप्तस्समस्तसम्प्रसन्नस्वप्न विजानात्येष आत्मेदिहोवाचैतदमृदमभयमे दद्ब्रह्मेति सह शान्तहृदयः प्रवव्राजसहाप्रात्यैव देवानेदद्भयन्ददर्शनाः खल्वय मे वगुं सम्प्रत्यात्मानं येवेमानि भूतानि विनाशमेवापीदो भवति पश्यामीति स समित्पाणिः पुनरेयायत गुंहप्रजापदिरुवाचमघवन् यच्छान्तहृदयः प्राव्राजी किमिच्छन् पुनरागमयिति सहो वाचनाः खल्वयं भगव एव सम्प्रत्यात्मानञ्चानात्ययमहमस्मि दिनो येमानि भूतानि विनाशमेवापीदो भवति नाहमत्र भोग्यं पश्यामीति एवमेवैषमघवन्निधिो वाचैदन्त्वे वदे भूयोऽनुव्याख्यास्यामिनो येवान्यत्रैतस्माध्वसा पराणि पञ्चवर्षाणि दिसः पराणि पञ्चवर्षाण्युवास तान्ये गषदगुं सम्पे दुरे दत्तद्यदाहुरेकशदगुं क वै वर्षाणि अध्यायम् एय्त् खण्डं ट्वेल्व् मघवन्मर्त्यं वा युदघुं शरीरमात्तं मृत्युनाथदस्या मृदस्या शरीरस्यात्मनोऽधिष्ठानमातो वै स शरीरप्रिया प्रियाभ्यान्न वैस शरीरस्य सधप्रिया प्रिययोरपः शिरस्त्यशरीरं वा वसन्तन्न प्रिया प्रिये सृजदः अशरीरो वायुर अशर वायुरभ्रमद्युस्तनये शीराण्येता त्यमुष्मादा समुधा परोतिपसंप्यवेणिष्प्य एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुद्धाय परञ्जोदिरूपसम्पद्य स्वेन रूपेणापि निष्पद्यते स उत्तमः पुरुषः स तत्र पर्येदि चक्षक्रीडन् रममाणस्त्रीभिर्वा यानैर्वाच्ञादिभिर्वा नोप नोपजनगं स्मरन्निदगं शरीरगं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन् शरीरे प्राणो युक्तः अध यत्रैददाकाशमनुविषण्णन् चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरधयो वेदे दं जिघ्राणीदिश आत्मा गन्धाय ख्राणमधयो वेदे दमभिव्याहराणीदिश आत्माभिव्याहाराय वागधयो वेदे दघुं शृणवानीदि स आत्मा श्रवणाय श्रोत्रम् अधयो वेदेदं मन्वानिधिश आत्मा मनोस्य दैवं चक्षुस्वा एष ये येदेन दैवेन चक्षुषा मनसैदान्तमान् पश्यन्द्रमदेय येदे ब्रह्मलोके तं ये वा आत्मनमुपासदे तस्मात् तेषागं लोका आत्तास्सर्वे च कामाश्च सर्वाग्रिश्च लोकानाप्नोति सर्वाग्ंश्च कामान्यस्तमात्मानमनुविद्यविधानादि ह प्रजापदिरुवाच प्रजापदिरुवाच अध्यायम् एय् खण्डं श्यामाच्छबलं प्रबध्ये शबला श्यामं प्रबध्येष्व इव रोमाणि विधूय वा पञ्चन्द्र इव राहोर्मुखात् अध्यायम् एय् खण्डं फोट्टीन् आकाशो वै निर्वहितादे यदंतरा तद्ब्रह्म तदमृदगुंस आत्मा प्रजापदे सभां वेश्मप्रपद्ये यशोहं भवामि ब्राह्मणाना यशो राज्ञा यशो हा हैयशसा यशस्वेद मदत्क मदत्कगुं श्वेदल्लिन्दुमाभिगालिन्दुमाभिगाम् अध्यायम् एय्ट् खण्डं फिफ्टीन् तद्धैतद्ब्रह्म प्रजापदय उवाच प्रजापतिर्मनवे मनुप्रजाभ्य आचार्य कुलाद्वेदमधीत्य यथाविधानङ्घुरो कर्मादिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधिया नो धार्मिकान्वि दधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिगुंसन् सर्वभूधान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषम् ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्ततेन च पुनरावर्तते ॐ आप्यायन्दु ममाङ्गानि वाक्प्राणश्चक्षुश्रोत्रमधो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्म उपनिषदमाहं ब्रह्मनिराकुर्यां ममा ब्रह्म निराकरो ध निराकरणमस्त्वनिराकरणमेस्तु तदात्मनि निरदेय उपनिषत्सु धर्मास्ते मयि सन्धुते मयि सन्धु ॐ शान्तिशान्तिशान्तिः यदि अष्टमोऽध्यायः यदि शान्दोग्योपनिषदः ओ